नमस्ते रुद्रम्यो नमः नमस्ते अस्तु याते रुद्रशिवातनोरघोरापापकाशिनी तयानस्तमया गिरिशन्ताभिजाकशीः यामिषङ्गे शन्द्रहस्ते बिभर्ष्यस्तवे शिवाङ्गे त्वदाङ्गरुमाहिकंसेः पुरुषम् जगत् प्रागिरिसाच्छा वदाव यथा नः सर्वमिजगमम् सुमनासद्रवोचदसि भक्तामो देव्याभिषग अहेगश्च सर्वाः जम्भयान् सर्वास्त्यया तु धान्यः असौ यस्ताम्रो अरुणमुद्रस्तु मङ्गलः सहस्रीहितः उदयनम् गोपा अदृशन्नम् विश्वा भूतानि सावणयाक्षायलेः स्तकुम् सहस्राक्षे निशल्यानाम् शिवानः सुमना भवन्धनकपर्दिनो विशल्या बाणभागम् पुता अनेशन्नस्ये तव आभुरस्वङ्गचिः यादे हेतृष्टमहस्ते बभूवदेधमः तयास्मान् विश्वदस्तमयक्ष्मजापरिभुजा नमस्ते अस्मायुधानातदायुधृष्टवे उभाभ्यामुददे नमो बाहुभ्यान्तवधन्मने परितेरस्मान् गृणत्वविश्वतः रे अस्मन्निषेहितम् नमो हिरण्यबाहवेशान्मो नमो वृक्षे च पशूनां पदयेन मौनव षष्ठिञ्जलाय त्रिशेमदैवथीनां पदयेन मो नमो बभृजाय विव्याधिनेनानां पदयैन मौनमो हरिगेजाय मीजने पुष्टानां पदयैन मौ नमो भवस्य हैत्ये जगदां पदयेन मौनमो रुद्राजा दधामिनक्षेत्राणां पदयेन मोनवः सूतायाहंकायमनानां पदयेन मौनमो नो हृदाय स्थ पददेव वृक्षाणाम् पदनेन भो नवा मन्त्रिणे वायुगाय कक्षाणाम् पदनेन बोनव भुवन्तये वायुवस्कृताय उडधीनाम् पदनेन बोनव उच्चैर्घोधायाम् क्रन्दय देवत्येनाम् पदयेन बौनवः कृत्स्रवेता यथावदे तत्वम् पदये नमः नमः सहमानाय व्याधिनः व्याधिनेनाम् पदजेन मौनभक्कुभाय निरङ्गिणेस्तेना पदयेन मौ नमो निरङ्गिणुधिमतेतस्तेन मौ नमो पञ्चदेवस्तायूनां पदयेन मो नो निजेन वैपरिचरायण्यानाम् पदयेन मो नमस्त्रिकामिभ्यो जिघागुं सद्भ्यामुष्टाम् पदयेन मो नमोऽभ्यो नभ्यप्रकृन्तानां पदय नष्टे गिरिदराजगु लञ्चा नाम पदगे भ्यष्टभो नो नष्टभो नभ्यष्टमो नो नमोऽश्च नमः नमस्तेष्टावद्भ्यष्टमो न मो नमः स्वभावन मो नमः अश्व भ्यश्चो नमः नमः व्याधिरेध्यन्ते भ्यश्च भो नमो नोगःभ्यस्त पदे भ्यष्टभोन मो नमो गच्छे भो गृच्छपदे भ्यष्टभवन मोनमो ब्राते भ्यो व्रातपदे भ्यष्टभोन बो नमो गणे भ्यो गणपदे भष्टभवन मोन विरूपे भो विश्वरूपे भ्यष्टभोन मो नमो महद्भ्यः शुल्लके भ्यष्टभवन नमो रथिभ्यो रथे भ्यष्टभोन बोनमो रथे भ्यो रथपदे भ्यश्च बोन मोनमसेन सेनानिभ्यष्टभो नमो नमः क्षत्रिभ्यः सङ्ग्रहेतुर्भ्यष्टभो नमो नमः न सकारेभ्यष्टभो नमो नमः कुलारेभ्यः कर्मारे भष्टभो नभो नमः पुञ्जिष्टेभ्योभ्यष्टभो न भो नमः यजकृभ्यो धन् भगद्भ्यश्च भवन मो नमो मृगजभ्यश्चिभ्यष्टभो नभो नमः भस्वश्चभो नमः नमो भवाय च रुद्राय जराजदाय धनमश्येभ्यजाय रजेऽध्याय धनमभूम्यायदामस्मन्याय धनमस्मस्याय ज्वेप्यायदा ेष्ठाय जघनिष्ठाय च नमः चापहजाय च नमोपध्यमाय चापगर्भाय ज नमो जघन्याय जबुध्याय जनमस्वाभ्याय जर्याय जनमो याम्याय दक्षेण्याय जनमोर्भर्याय जखल्याय जनमस्वात्याय चापधान्याय जनमो ह्याय जक्ष्याय जनमश्रवाय जश्रवाय धनम आशुदेनाय चासुरधाय जनमश्च शूराय च भृन्दने जनमो बर्मिणे जव रोचिने जनमो जन्मिले जग भजने जनम श्रुतानि नमो दुन्द्यायदाहरण्याय जनमो धृष्टवेजप्रभृशाय जनमो दूताय जप्रहिताय जनमो निषञ्जने जनमस्ते शेघवेजायुधिरे जनमस्वायुधाय धनमस्तुत्याय जाय जनमक्कात्यादि जनेत्याय जनमसोऽद्याय जतरस्याय जनमो नाद्याय च वैषन्ताय जनमक्कोप्यायतापत्याय जनमोऽपश्यायता प्याय जनमो मेध्याय जत्याय जनमयेध्ययाय जादप्याय जनमो वात्याय जेश्वर्याय जनमो वा स्तव्यायज वास्तवायजा नमः सोमाय जुद्राय जनमस्ताम्राय च रुणाय जनमः शङ्घाय जदय जनमोग्राय च भीमानि जनमो अग्रे वधाय ज दूरे वधाय जनमो हन्त्रे जहनीयुजे जनमो वृक्षे भ्रो हरिकेशे भ्रो नमस्तार भवे जनमः शङ्कराणि शिवतराय जनमस्तीर्थ्यानि चकोल्यानि जनमः भार्याय जनव प्रदरणाय चोत्तरणाय जनम आधार्याय चाद्याय जनमश्र्याय देण्याय जनमश्रिरप्यायद प्रभाह्याय च नवगिरण्याय च प्रपत्साय जनमौ जहस्तय जनमोगोष्ठ्याय जगत्याय धनमस्तव्याय जगेत्याय जनमक्काश्याय जगेष्ठाय जनमोहाय जनभेश्व्याय जनमप्पागं सव्याय जनस्याय जनमश्याय जहजस्याय जनमोलोप्याय चनप्याय जनमभूर्याय दशन्याय जनमपण्याय जन्म सद्याय प्रक्षिदते च नमो भक्ो देवा भो नमो विक्षेदके भो नमो विजृम्भत्य भो नमः भो नमः मेभक्त्येभ्यः अन्धरस्पते दरिद्रन्नेन लोहित येषाम् पुरुषाणामेषाम् पुशोनाम् माभेर्मारोमो येषाम् किञ्च नामवत् यादे रुद्रिवा शिवा विश्वाः भेटजी शिवारुद्रश्च भेटजी दया नाम इमायम् रुद्राय नवशय वर्जनेराय प्रभाम् यथा न शमषद्दिपदे चतुष्पदे विश्वम् पुष्पम् ग्रामे अस्मिन्ननातरम् रामारुद्रमयस्मीराय नेमने यच्छन् जयौश्च मनुरायस्य पदवरुद्रप्रणीतौ माहान्त मुदमानो अर्भगम् मानमुक्षन्त मुदमान मुक्षितम् मानामधे पितर मोदमातरम् प्रियामानस्तनवो रुद्रनेरिणः मानस्तो केद हेमानहायुजमानो गोचमानो अश्वरिणः <laughs> ष्मन्तो नो तपोर्षे क्षेत्रीराय सुम्नस्मेते अस्तु अधिकदेव यच्छद्विमर्हा श्री श्रुतम् गर्तन्यवानम् मृगण्ण भेमोपहाग्राम् ृणयाः सुमना भवयुधन्धा जगुप्तिम्बाजरना गम् वि नमस्ते अस्तु भगवः नमस्तन्यः सहस्राणि सहस्रधा बाहुवोऽस्त्वयः तादामी भगवत्परा येन मुखाकृते सहस्राणि सहस्रदो ये हृद्राणि भूम्याः सहस्रजो जने वधन्वानि धन्वधे अस्मिन् महत्यम् नवेन्तरिक्ले भवाहि वीरग्रेवा श्रीकण्ठाः सर्वा क्षमाः नीरग्रेवा श्रीकण्ठादिवकुम् वृद्रा उपश्रिताः ये वृक्षेण तस्मिन् यः नीरग्रेवा विलोभिनाः हे भूतानामधिपदया शिखाशक्तवर्तिनः ते अन्येषु विविध्यन्ति पात्रेण ये तेर्थानि प्रचरन्ति ऋन्तो निषङ्गिणः एतावन्तश्च भूयागुङ्गश्च दिशोरुत्रापि स्थिरे एकागुङ्गन्मते स्ते भवनप्रेर्दक्षिणास्ते भवनहस्ते न मृडयन्धतेयम् दृष्टायश्चेक्षितम् भोजम्भे दधामि ओ